कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितं कच्चित्सन्धिं यथा कालं विग्रहं चोपसेवसे कच्चिद्वृत्तिमुदासीने मध्यमे चानुमन्यसे कश्चिदात्मसमावृद्धाः शुद्धाः सम्बोधनक्षमाः कुलीनाश्चानुरक्ताश्च कृतास्ते वीरमन्त्रिणः विजयो मन्त्रमूलोही राज्ञो भवति भारत सम्रत कच्चित् संवृतमन्त्रैस्तैरमात्यैः शस्त्रकोविदैः राष्ट्रम् सुरक्षितम् तात शत्रुभिर्न विलुप्यते कच्चिन्निद्रावशम् नैषी कच्चित् काले विबुध्यसे कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवेत् कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह कच्चित्ते मन्त्रितो परिधावति कच्चिदर्थान् विनिश्चित्य लघुमूलान् महोदयान् क्षिप्रमारभसे कर्तुम् न कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः सर्वे वा पुनरुत्सृष्टाः संसृष्टम् चात्र